अद्वदार्थम् महाबाहुरेष चक्रगदासिधृक् जातो वृष्णिषु वासुदेवो जनार्दनः तस्यास्य पुरुषेन्द्रस्य लोकप्रथिततेजसः निवासो द्वारकातातविदितो वः प्रधानतः अतीव हि द्वारका, वा द्वारका वासवक्षयात् अतिवैराजते पृथ्व्याम् प्रत्यक्षन्ते युधिष्ठिर तस्मिन्देव पुरप्रख्ये सासभा सभा वृष्ण्युपाश्रया या विख्याता योजनायत विस्तृता तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः लोकयात्रामिमाम् कृत्स्नाम् परिरक्षन्त आसते तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ दिव्यगन्धाववुर्वाताः कुसुमानाम् च वृष्टयः ततः सूर्यसहस्राभस्तेजो राशिर्महाद्भुतः मुहूर्तमन्तरिक्षेऽभूत् ततो भूमौ प्रतिष्ठितः मध्ये तु तेजसस्तस्य पाण्डरम् गजमास्थितः वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह उत्पत्य सहसा तस्मै नमस्कारमकुर्वत सोऽवतीर्य गजात् तूर्णम् परिष्वज्य जनार्दनं सस्वजे बलदेवम् च च तमाहुकम्